ोनिंशोध्याय युधिष्ठिर उवाच क्रोधो हन्ता मनुष्याण क्रोधो भाविता पुनः महापा क्रोधमूलौव यो हि संहरते भवस्तस्य सुशोभने यः पुनः पुरुषः क्रोधन्नित्यन्न सहते शुभे तस्याभावाय भवति क्रोधः परमदारुणः क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते तत्कथम् मादृशः क्रोधमुत्सृजेल्लोकनाशनम् क्रुद्धः पापन्नरः कुर्यात् क्रुद्धो हन्याद्गुरूनपि क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते वाच्या वाच्ये हि कुपितो न प्रजानाति कर्हिचित् नाकार्यमस्ति क्रुद्धस्य नावाच्यम् विद्यते तथा हिंस्यात्क्रोधादवध्यांस्तु वध्यान्सम्पूजयीत च आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् एतान् दोषान् प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः इच्छद्भिः परमम् श्रेय इह चामुत्र तङ्क्रोधम् वर्जितं धीरैः कथमस्मद्विधश्चरेत् एतद्रौपदि सन्धाय न प्रवर्धते आत्मानम् परांश्चैव त्रायते महतो भयात् क्रुध्यन्तमप्रतिक्रुध्यन् द्वयोरेष रूढो यदि क्लिश्यमानः क्रुध्यते शक्तिमान्नरः बलीयसाम् मनुष्याणाम् त्यजत्यात्मानमात्मना